अश्रुतपूर्वः श्लोकः पुरा पाटलिपुत्रे नन्दनृपस्य राजे शकटालः नाम मन्त्री आसीत् सः सुशीलः सदाचारी च शकटालः राज्यस्य सुचारव्यवस्थायां रतः आसीत् तस्य द्वौ पुत्रौ सप्तपुत्र्यः च आसन् ते सर्वे जनमतानुसारिणः आसन् नन्दाभूपतेः सभां प्रति प्रतिदिनं अनेके कवयः आगच्छन्ति स्म तेषु ये ये कवयः नूतनान् श्लोकान् श्रावयन्ति तेभ्यः सर्वेभ्यः राजा प्रभूतं पारितोषिकं यच्छति स्म एतं विषयं ज्ञात्वा सुदूरप्रदेशेभ्यः अपि बहवः कवयः तत्र आगत्य श्लोकान् श्रावयित्वा पारितोषकं प्राप्नुवन्ति स्म मन्त्री शकडालः चिन्तयति स्म यत् एतत महाराजस्य दुर्व्यसनम् अपि अस्ति यतः एतेन महान् दुर्व्ययः भवति कदाचित् राजस्य कोशागारमेव रिक्तं भवेत् इति परन्तु सः किमपि कर्तुं न शक्तः अतः सः महाराजं बोधयितुम् उचितं उपायं चिन्तयन् आसीत् कदाचित् शकटालः स्मृतवान् यत् स्वस्य सप्तपुत्र्यः सन्ति ताः सर्वाः बुद्धिमत्यः तासु एका कमपि श्लोकं सुकृत् श्रुणोति चेत् तं पुनरुच्चारयितं समर्था अन्या श्रुतं पुनरुच्चारितं समर्था अन्याः अपि क्रमशः त्रिवारं चतुर्वारं पञ्चवारं षड्वारं सप्तवारं च श्रुतं पुनरुच्चारितं समर्थाः इति एतेन तस्य मनसि कश्चन नूतनः उपायः स्फुरतः अनन्तरदिने यदा शकडालः राजसभां गतवान् तदा एव कश्चन कविः तत्र उपस्थितः आसीत् महाराजस्य अनुमतिं प्राप्य सः नूतनं श्लोकं श्रावितवान् तत् श्रुत्वा झटिति एव शकडालः उक्तवान् महाराज एषः श्लोकः तु नूतनः न कुत्रापि श्रुतपूर्वः श्लोकः एषः इति परन्तु कविः तत् निराकुर्वन् उक्तवान् नैव महाराज एषः श्लोकः अद्य एव मया विरचितः अन्यत्र कुत्रापि न श्रावितः अपि अतः अन्यः कोऽपि एतं श्लोकं न जानाति इति महाराजः शकटालस्य मुखं दृष्टवान् शकटालः वान् परन्तु महाराज अहं मम पुत्रीणां मुखात् एकम् एत एतं श्लोकं श्रुतवान् अस्मि इति एवं चेत् ताः अत्र आनयतु इति महाराजः आदेशं कृतवान् शकडालस्य सप्त अपि पुत्र्यः झटिति राजसभाम् आनीताः तासां पुरतः कविः पुनरेकवारं तं श्लोकं श्रावितवान् तासु एका झटिति उक्तवती सत्यम एषः श्लोकः पूर्वम् अपि मया श्रुतः इति तर्हि श्रावयतु भवती इति महाराजय ताम आदिष्टवान् सा विनालोपं तं श्लोकं पुनरुच्चारितवती द्वितीया बालिका कविना स्वभगिन्या चेति द्विवारं उक्तं तं श्लोकं श्रुत्वा विनूलोपं विनालोपं पुनरुच्चारितवती एवमेव अन्याः अपि भगिन्याः पुनरुच्चारितवत्यः तदा महाराजः निर्णीतवान् यत् श्लोकः नूतनः ना इति तत्पश्चात् कविना अन्येऽपि श्लोकाः श्राविताः परन्तु ताः सप्त अपि बालिकाः क्रमशः तान् श्लोकान् पुनरुच्चारितवत्यः एतेन कविः अपि दिग्मूढः जातः महाराजः तस्मै किमपि पारितोषिकं न दत्तवान् तत्पश्चात् यदा यदा कवयः राजास्थानम् आगत्या श्लोकान् श्रावयन्ति तदा तदा शकडालः तमेव उपायं कृत्वा तान् रिक्तहस्तेन प्रेषितवान् क्रमशः महाराजस्य नन्दस्य अपि नूतनश्लोकविषये आसक्तिः न्यूना जाता तेन राजस्य कोशागारमपि रक्षितम् अभवत् शकटालः अपि सन्तुष्टः अभवत्